ब्रह्माण्डपुराणं पूर्वभागम् अध्यायं फोर्टीन् प्रियंव्रतवंशानुकीर्तनं सूत उवाच अथान्तरेषु सर्वेषु अधीतानागदेष्विह तुल्याभिमानिनः सर्वे जायन्ते नामरूपतः देवाश्चाष्टविधाये च तस्मिन्मन्वन्तरेऽधिपाः ऋषयो मनवश्चैव सर्वे तुल्यप्रयोजनाः महर्षिसर्गसङ्क्रान्तो वंशं स्वायम्भुवः स्यतु विस्तरेणानुपूर्व्या च कीर्त्यमानं निबोधत मनोस्वायम्भुवस्यास्सन् दश पौत्रास्तु तत्समाः यैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना समुद्राकरवती प्रतिवर्षं निवेशिता स्वयं भुवेन्तरे पूर्वमाद्ये त्रेदायुगे तथा प्रियव्रतस्य पुत्रैस्तैः पौत्रैः स्वायम् भुवस्यतु प्रजा सत्वत्तपोयुक्तैस्तैरियम् विनिवेशिता प्रियव्रतात् प्रजोपेदान् वीरान् काम्यान् व्यजायत कन्यासाधुमहाभाग कर्दमस्य प्रजापतेः कन्ये द्वे दशपुत्राश्च सम्राट कुक्षिश्च ते शुभे तयो वैभ्रातरः शूराः प्रजापदि समादश आग्नेद्रश्चाग्निबाहुश्च मेधा मेधातिथिर्वसुः ज्योतिष्मान् द्युतिमान् हव्यसवनः सभ्र एव च प्रियव्रदो ऋष्यं च तान् सप्तसप्तसु पार्थिवान् द्वीपेषु तेषु धर्मेण द्वीपां ताश्च निबोधत जम्बोद्वीपेश्वरं चक्रे आग्नेध्रं सुमहाबलं प्लक्षद्वीपेश्वरश्चापि तेन मेधातिधिकृतः शाल्मलेदु वपुष्मन्दं राजानं सोऽभिषिकृतवान् ज्योतिष्मन्दं कुशद्वीपे राजानं कृतवान् प्रभुः द्युतिमन्दं च राजानं क्रौञ्चद्वीपेभ्य सेचयद चा शागद्वीपेश्वरं चापि हव्यं चक्रे प्रियव्रतः पुष्कराधिपतिं चैव सवनं कृतवान् प्रभुः पुष्करे सवनस्याध महावीतस्सुतो भवत् धात द्वा वेदौ पुत्रौ पुत्रवतावरौ महावीरं स्मृतं वर्षं तस्य नाम्ना महात्मनः नाम्ना धकेश्चापि धाधकी खण्ड उच्यते हव्यो व्यचनयत्पुत्रागद्वीपेश्वरान् प्रभुः जलदं च कुमारं च सुकुमारं मणीवकं कुसुमोत्तरमोदाकौ सप्तमं च महादृगम् जलदं जलदस्याधप्रथमं वर्षमुच्यते कुमारस्य तुकुमारं द्वितीयं परिकीर्तितम् सुकुमारं तृतीयं तु सुकुमारस्य तत्सुतं मणीवस्य चतुर्थं तु दु, मणीवगमिहोच्यते कुसुमोत्तरवर्षं यत्पञ्चमं कुसुमोत्तरं मोदकस्यापि मोदाकं षष्ठं वर्षं प्रकीर्तितम् महाद्रुमस्य नाम्ना च सप्तमं तन्महाद्रुमं तेषां तु नामभिस्तानि सप्तवर्षाणि तत्र वै क्रौञ्चद्वीपेश्वरस्यापि पुत्रोद्युतिमतस्तु कुशलो मनोनुग्चो पवनश्चाथक मुनिश्चु सुधार्युतिमतस्थ वै तस्वनार्देश क्रौद्वीश्रयाशु कुशल से भूत कौशलो नाम देशो मनोनुगस्यापि मानोनुगे इदे स्मृतः उष्णस्योष्णस्मृतो देशः पावनस्यापि पावनः अन्धकारस्य देशस्तु अन्धकारः प्रकीर्तितः मुनेश्च देशो वै दुन्दुभेर्दुन्दुभि स्मृदः यदे जनपदाः सप्त क्रौञ्चद्वीपे दुभास्वराः ज्योतिस्मदकुशद्वीपे सप्तैवासन्महौजसः उद्भिज्जो वेणुमांश्चैव वैरथो लवणो धृतिः षष्ठः प्रभाकरश्चापि सप्तमः कपिलस्मृतः उद्भिज्जं प्रथमं वर्षं द्वितीयं वेणुमण्डलं तृतीयं वैरथाकारं चतुर्थं लवणं स्मृतं पञ्चमं धृतिमद्वर्षं षष्ठं वर्षं प्रभाकरं सप्तमं कपिलं नाम कपिलस्य प्रकीर्तितं तेषां देशा कशद्वीपे तत्सनामान एव च आश्रमाचारयुक्ताभिः प्रजाभिः समलङ्कृताः शाल्मलस्येश्वरसप्तसुतास्ते च श्वेतश्च हरितश्चैव जीमूदो लोहितस्तथा वैद्युतो मानसश्चापि सुप्रभः सप्तमस्तथा श्वेतस्तु देशश्वेतस्य हरितस्य सुहरितः जीमूदस्यापि जीमूदो रोहितस्यापि रोहितः वैद्युतो वैद्युतस्यापि मानसस्य तु मानसः सप्तैदे देशपालकाः प्लक्षद्वीपं प्रवक्ष्यामि जम्बूद्वीपादनन्तरं सप्त मेधाधिदे पुत्राः प्लक्षद्वीपेश्वरा नृपाः ज्येष्ठशान्तभयो नाम शिशिरस्मृतः। सुखो सुखोदयस्तृतीयस्तु चतुर्थो नन्द उच्यते शिवस्तु पेचमस्तेषां क्षेमकः षष्ट उच्यते ध्रुवस्तु सप्तमो ज्ञेयः पुत्रा मेधातिथे स्मृताः सप्तानां नामभिस्तेषां तानि वर्षाणि सप्त तस्माच्छान्तभयं चैव शिशिरं च सुखोदयम् आनन्दं च शिवं चैव क्षेमकं च ध्रुवं तथा तानि तेषां समानानि सप्तवर्षाणि भागशः निवेशितानि तैस्तानी पूर्वं स्वायं भुवें तरे मेथातिथेस्तु पुत्रस्तैः प्लक्षद्वीपेश्वरैर्नृवैः वर्णाश्रमाचारयुक्ताः प्लक्षद्वीपे प्रजाकृताः प्लक्षद्वीपादिषु त्वेषु शाकद्वीपान्तिकेषु वै ज्ञेयः पञ्चसु धर्मो वै वर्णाश्रमविभाजकः सुखमायुश्च रूपं च बलं धर्मश्च नित्यशः पञ्चस्वेतेषु द्वीपेषु सर्वसाधारणं स्मृतं प्रक्षद्वीपः परिष्क्रान्तो जम्बूद्वीपं निबोधत आग्नेध्रं ज्येष्ठदायादं काम्यापुत्रं महाबलं प्रियव्रतोभ्य श्रीं चतं जम्बूद्वीपेश्वरं नृपं तस्य पुत्रा बभूवुर्हि प्रजापतिसमानव ज्येष्ठो नाभिरिधिख्यादस्तस्य किं पुरुषोऽनुजः हरिवर्षस्तृतीयस्तु चतुर्थो भूदिलावृतः रम्यस्तु पञ्चमः पुत्रो हिरण्वान्षष्ट उच्यते कुरुस्तु सप्तमस्तेषां भद्राश्वष्टमः स्मृतः नवमः केदुमालश्च तेषां देशान्निबोधत नाभेस्तु दक्षिणं वर्षं हिमाख्यं तु पिता ददौ हेमकूडं तु यद्वर्षं ददौ किं पुरुषाय तत् नैषधं यत् वर्षं हरिवर्षाय तं ददौ मध्यमं यत्सुमेरोस्तु ददौ स तदिलावृतं नीलं यस्मृतं वर्षं रम्यायैतप्तिदा ददौ श्वेदं यदुत्तरं तस्मात् पित्रा दत्तं हिरण्वदे यदुत्तरे शृङ्गवधो वर्षं तत्कुरवे ददौ शाल्यवन्तं तथा वर्षं भद्राश्वायन्यवेदयद गन्धमादनवर्षं तु केदुमाले न्यवेदयद इत्येतानि मयोक्तानि नववर्षाणि भागशः आग्निध्रस्तेषु वर्षेषु पुत्रां स्तानभ्यषेच यद् यथा धर्मात्मा ततस्तु तपसि स्थितः इत्येतौ सप्तभिकृष्णा सप्तद्वीपा निवेशिताः प्रियव्रतस्य पुत्रैस्तैः पौ तैस्वायम्भुवस्य च एवं वर्षेषु सर्वेषु सन्निवेश्याः पुनः फुना पुनः क्रियन्ते प्रलये वृत्ते सप्त सप्तसु पार्थिवैः एवं स्वभावकल्पानां द्वीपानां च यानि किम् पुरुषाद्यानि वर्णान्यष्ठौ श्रुतानि तु तेषां स्वभावतसिद्धिसुखप्रायमयत्नतः विपर्ययो विपर्ययोन तेश्वस्ति जरा मृत्युभयम् न च धर्माधर्मौ न तेष्वास्ता नोत्तमाधममध्यमाः न तेष्वस्ति युगावस्थाक्षेत्रेष्वष्ठासु सर्वशः नाभिर्निसर्गं वक्ष्यामि हिमाह्वेस्मिन्निबोधत नाभिस्त्वजनयत्पुत्रं मेरुदेव्याम् महाद्वितिम् ऋषभं पार्थिवश्रेष्ठं सर्वक्षत्रस्य पूर्वजं ऋषभाद्भरदो जज्ञे वीरपुत्र सदाग्रजः सोऽभिषिच्यर्षभपुत्रं महाप्रव्रजया स्थितः हिमाह्वं दक्षिणं वर्षं भरदायन्यवेदयद तस्मातु भारतं वर्षं तस्य नाम्ना विदुर्बुधाः भरतस्यात्मजो विद्वान्सुमतिर्नाम धार्मिकः बभूव तस्मिन् राज्ये तं भरतस्त्वभ्यसेचयद् पुत्रसङ्ग्रामितश्रीस्तु वनं राजा विवेशसः तेजसस् तत्सुतश्चापि प्रजापतिरमित्रजिद तेजः सस्यात्मजो विद्वान्निन्द्रद्युम्न इति स्मृतः परमेष्टिसुतश्चापि निधने तस्य चाप्यभूद प्रदि तस्य नाम्ना जज्ञे तदन्वयः हृदि हर्तेदि ज्ञे तस्यापि धीमतः उन्नेदाप्रतिहर्तुस्तु भूमा तस्य सुत स्मृतः उद्गीधस्तस्य पुत्रो भूत्प्रस्थाविश्चापि तत्सुतः प्रस्तावेस्तु विभुः पुत्रः पृधुस्तस्य सुतो भवत् पृद्धोश्चापि सुतो नक्तो न क्रस्यापि गजस्यापि नरः पुत्रो नरस्यापि सुतो विराट् विराट् सुतो महावीर्यो धीमांस्तस्य सुतो भवद धीमतश्च महान् पुत्रो महतश्चापि भव्वनः भवनस्य सतस्त्वष्टा विरजास्तस्य चात्मजः रजा विरजसः पुत्रशद्रजसस्तथा तस्य पुत्रशतं त्वाशीद्राजानः सर्व एव यैरिमा वर्धिताः प्रजाः तैरिदं भरदं वर्षं सप्तद्वीपमिकाङ्कितम् तेषां वंशप्रसूतैस्तु भुक्तेयं भारती पुरा कृतत्रैदादियुक्तास्तु युगाख्याह्येकसप्ततिः ये ते तास्तैर्युगैः राजानस्ते तदन्वयाः स्वायं भुवेन्तरे पूर्वं शदशोध सहस्रशः एवं स्वयंभुवः सर्गो येनेदं पूरितं जगद जगत् ऋषिभिर्दैवतैश्चापि पितृगन्धर्वराक्षसैः यक्षभूतपिशाचैश्च मनुष्यमृगपक्षिभिः तेषां सृष्टिरियं प्रोक्ता युघैः सह विवर्तते इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुशङ्खपादे प्रियव्रतवंशानुकीर्तनं नाम चतुर्दशोऽध्यायः ओ